थर्वेदे षष्ठाष्टके चतुर्थोऽध्यायः ओवतः पुरोवसो भयमिन्द्रप्रणेतः स्वसि स्थातर्हरीणाम् ताम् हि सत्यमद्रियो विद्मदातारमिषाम् विद्मदातारम् रयीणाम् आयस्यते महिमानम् शरमूते शतक्रतो गीर्भिर्गृणन्ति कारवाः सुनीथो घासमर्त्योऽयम् मरुतोऽयमरुयमा मित्रः पान्त्यद्रुहाः दधा आ नो गोमद्रवत्सुवीर्यमानित्यजूत एधते सदाः राजा पुरःस्पृहा तमिन्द्रन्दानमीमहे शवसानमभीमम् ईशा आनम् राय ईमहे तस्मिन्हि सञ्चोतयो विश्वा अभीरभः सचाः तमा वहन्तु सप्तयः पुरोवसुंवदायहरयः सुतम् यस्ते मदोपरेण यो ज इन्द्रवृत्रहन्तमः य प्रतनासु दुष्टराः यो दुष्टरो विश्ववारश्रा यो रायेष्वस्तितरुता सरश्रमिष्ठसमनावसो गरिगमे मको मतिम् रजे गव्योषृणो यथा आपुराश्वयोजोतरथया वरिवस्य महामह नहि ते एषूरराधसोऽन्तम् विन्दामि सत्रा दशस्या नो ओमघवन्नोचिद्रिबोधि योपाजे एभिराविथ य विश्वश्रा अभयत्सखा विश्वेत्सवे एतजनिमापुरुष्टुतः म् विश्वेवानुषा युगेन्द्रम् हवन्ते तविषम् यतस्रुचः स नो वाजे एष्वभिता अभिवो वीरमन्थसोमदे एषु गायगिरा महाविचे एतसम् इन्द्रम् नामश्रुत्यम् शाकिनम् वचो यथा नूनमथ विश्वेषाभिरज्यन्तम् वसूनाम् सा सह्वांसञ्चितस्य वर्पसः कृपयतो नूनमत्यथा महसुभो अरमिषेस्तवा महे मीषुषे ए अरङ्गमाजग्मये यज्ञेभिर्गेर्भिर्विश्वमनुषाम् मरुता आवियक्षसिकाये एता नमसा गिरा ये पातयन्ते अज्मभिर्गिरीणाम् स्तुभिरेषाम् यज्ञम् महिष्मणेनाम् सुम्नन्तु विष्मणेनाम् प्राध्वरे प्रभङ्गम् दुर्मतेनामिन्द्रश विष्ठाभरमस्मभ्यम् युज्यम् चोदजन्मते ज्येष्ठम् चोदजन्मते सरितः सुसरितरुग्रचित्रचेतिष्ठसूदृत प्रासहासं राट्सहरिंसहन्तम् भुज्युम् वाजेशु पूर्यम् आस ए, ए तुय ईवदाम् अले एव पूर्तमा आददे यथा चिद्वशो अश्वः पृथुश्रवसि गानीते एस्याव्युष्या आददे यष्टिम् सहस्राश्वस्यायुता आसनमुष्ट्रानाम् विंशतिम् शता दशस्यावीनाम् शता दशत्र्यऋषीणाम् दश गवाम् सहस्रा दशश्यावाधद्रयो वीतवा आरास आशवाः मध्रा नेमिवादुः दानासः पृथुश्रवसः का नेतस्य सुराधसः रथम्बंष्ठः आनो वायो महेतने एमखाजपायसे वयम् हिते ये च ए सद्यश्चिन्महितापने यो अश्वे एभिर्वहतेवस्त उस्रास्त्रिः सप्तसप्ततीनाम् एभिः सोमे एभिः सोमशुद्धिः सोमपादानाय शुक्रपूतपाः व्योम इमञ्चिदुत्तनामन्दच्छित्रन्दावने अरट्वे अक्षे नमुषे सुकृत्वनि सुकृत्तनाय सुक्रतुः उदर्थ्ये एपुषि यः स्वराळुतवाजो कृतस्नाः अश्वे एषितम् व्रजे एषितम् शुने एषितम् राजमतदिदन्नुतत् अथ प्रियमिशिराय षष्टिम् सहस्रा आसनम् अश्वानाभिन्नवृष्णाम् गावो न यूथमुपयन्ति वध्रज उपमायन्ति वध्रजः अथ यच्चारथे गणे शतमुष्ट्राम् अधिकृदत् अथ े ते एवाय विमेजनामदन्तीन्द्रगोपा मदन्ति देवगो ऊपाः अथस्यायोषणा मही प्रतीचीवशमह्यम् अधिरुक्मा विनीयते महि वो महतामवो वरुणमित्रदाशुषेः यमा आदित्या अभिद्रुहो रक्षथाने मघन्नशदनेहसो ओब ऊतयः सु ऊतयो ओब ऊतयाः विलादे एव अघा नामादित्यासो अपाकृतिम् पक्षावयो परिव्या अस्मे शर्म यच्छता नेहसो अव ऊतयस्व ऊतयाः व्या अस्मे अधिशर्म तत्पक्षापयोनयन्तना विश्वानि विश्ववेतसो वरूध्यामनामहे नेहसो अव ऊतयस्व ऊतयोव ऊतयाः यस्मा अरासतक्षयम् जीवातुम् अप्रचेतसः मनोर्विश्वस्य खेधिम आ आदित्या राज ईशते नेहसो ओब ऊतयस्व ऊतयो ओब ऊतयाः परिणो वृणजन्नखा दुर्गाणि रथ्यो यथा स्यामेदिन्द्रस्य शर्मण्यादित्या ना आमुतावस्य नेहसो ओब ऊतयस्व ऊतयो ओब ऊतयाः परिहृते धनाजनो युष्मा दत्तस्य वायते देवा अदभ्रमाशभोयमादित्या अहेतनानेहसो यस्मा उशर्म सप्रथ आदित्या सो अराध्वमनेहसो युष्मे दे एव अपि श्मसि युध्यन्त इव वर्मसु यूयम् महो न एनसो यूयमर्भा आदुरुष्यता नेहसो अव ऊतयः सु ऊतयो अव ऊतयाः अतितिर्न उरुष्यतिः शर्म मातामित्रस्य देवतो वरुणस्य च नेहसो अव ऊतयो अव यद्दे एवाः शर्म शरणै यद्भद्रञ्यदनातुरम् त्रिधा तु यद्वरूद्ध्या अन्तरस्मासुभियन्तनानेहसो ओव ऊतयः सु ऊतयोब नवे एत भद्रन्थे नवे ए वीराजदुश्रवस्यते एनेहसो अव ऊतयः स्वतयो व ऊतयाः यदाभिर्यदपीच्या या अन्देवासो अस्ति दुष्कृतम् कृते तद्विश्वमाप्य आरे अस्मत्तथातना दा नेहसो व ऊतयः सु ऊतयो व ऊतयाः यच्च गोषु दुष्वप्ने यच्चास्मे कृताय तद्विभावर्याप्त्यायपरावहनेहसो ओब ऊतयस्व ऊतयो ओब ऊतयाः निष्कम्बा आघा कृणपतेः स्रजम् दुष्पप्नम् सर्ववाक्ये परिजद्मस्य नेहसो ओब ऊतयस्व ऊतयो ओब ऊतयाः त्रिताय चद्भितायचोषो दुष्वप्नम् वहा नेहसो ओबतयस्व ऊतयो बऊतयाः यथा कलाञ्यथा आशफम् यथा ऋणम् सन्नयामसे एवादुष्वप्नम् सर्वमाप्त्ये सन्नयामस्य नेहसो ओबतयःस्सु ऊतयो ओब ऊतयाः अतीष्माद्यासनामचा भूमानागसो भयम् पुषो यस्माद्दुष्वप्न्यादभैष्मापतदुच्छत्वनेहसो ओब ऊतयः सु इन्दविन्द्रस्य सख्यञ्जुषाणश्रोष्टे ए मधुरमनुराजरुध्याः अपा आम सोममृता आ अभूमागन्मज्योतिरभिमदेवान् किन्दो नमस्तान् कृणपदरा आदिः किमुधूर्तिरमृतमर्त्यस्य शन्नो अभव हृत आपीत इन्दोऽपि देव सोम सोनवे ए सुषेवाः सखे एव सख्य उरुषम् सधीरः प्रण आयुर्जीवसे ए इमे मा आपीलायशस उरुष्यमोरथन्नगावः समनाः पर्वसौ ते मा आ रक्षन्तु विस्रसश्चरित्रा आदुतमाश्रामा आद्यमयन् बिन्दवः अग्निन्नमा आमथितम् सन्दि देवः प्रदक्षय कृणहि सोनः आसो मम मन्ये रेमा विशिरेण ते मनसा सुतस्य भक्षे महि पित्र्यस्येव राजः सोमराजन् प्रण आयोशिरासूर्यो ओवासराणि सोमराजन् वृळयानस्वस्ति तव स्मसं रत्या आस्तस्य विद्धे अलर्तिलक्षभुतमञ्जुरिन्दोमानो अर्यो अनुकामम्बराः म्भिनस्तम्बः सोम गोपा गात्रे ए गात्रे निषसत्था नृतक्षा आह यत्ते एभयं प्रमिनामौ रता निसनो ओ मृणसुषखादे मवस्याः ऋदोदरे एण सख्या आसते जयो मादरिष्ये यश्लपीतः अयं यः सोमोऽन्यथा अञ यस्मे तस्मा इन्द्रम् प्रतिरमेम्यायोः अपत्या अस्थुरनिरामेवानिरत्र सन्तमिषे चैरभैषुः आ सोमो अस्माकरुहद्भिः आया अगन्मयत्र प्रतिरन्त आयोः यो न इन्दुः पितरो हृत्सुपेतो मर्त्यो मर्त्या तस्मै सोमा आयः विशा अस्य सुमतौ आमा तंसो ओ अविदृभिः संविदानो नुद्यावा आपृथिवी आततन्था तस्मै ईत इन्दो हविषा आविधेम त्राता आरो देवा अधिवोचता नो मा नो ओ निद्रा ईश तमोतजल्पीः वयम् सोमस्य विश्वः प्रयासः त्वन्नः सोम विश्वतो ओपयोधाः त्वम् स्वर्विदापिशा दृतक्षाः त्वन्न इन्द ऊतिभिः गिरेरिवप्ररसा आस्यत्रा आलिपुरुभोजसः आत्वा आ सुता स इन्दवो आपो न रुद्रिन्दन् भोग्या अंसरः प्रणन्दिषु रराधसे अमेहसम् प्रतरणम् विवक्षणम् मद्भस्वानिष्ठमे प्रक्षुद्रे वत्मना आधृषत आनस्तोममुपद्रमद्धि यानो अश्वो न सोतृभिः यन्ते एस्मधावन् स्वदयन्ति धेन भविन्द्र कण्वेशु नादयाः उग्रन्न वीरन्नपसोपसेतिमभिभूतिमक्षितावशुम् उद्रेम वज्रिन्न पतो निञ्चते क्षरन्तेन्द्रधीतयाः यद्धनूनै यद्वा आ यज्ञे यद्वा, आ यद्वा आ अतो नो यज्ञमाशुभिर्महेमत उग्र अजिरा अजिरासोहर योजेत आशवो वातादिवप्रसक्षिणाः येभिरपत्यम् मनुषः परेयसे येभिर्विश्वं स्वर्दृशे एतावतस्तरेमह इन्द्र सुम्नस्य गोमतः यथा प्रावो मघमन्मेऽध्यातिथि यथा दीपातिथिन्धने यथा कण्वे एमखवन्त्रशदस्य बीथा आपक्षे दशूरजे यथा गोशर्ये असनो रजिष्वलीन्द्रगोमद्धिरण्यवत् वसुश्रुतम् सुराधसमर्चाचक्रमभिष्टजे समर्चा सुन्वते स्तुमते काम्यम् वसुसहस्रे एणेपमम्भते शतानेका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो गिरिर्नगवत्सु बिम्बते यदि सुता अमन्दिषुः यदि इन्दोभिप्रियमन्दिषुः आपो नसो दुःखा आ इवोपदाशुषे अदेहसम्बो हवमानभूतजे मध्वाः क्षरन्ति धीतयाः आ त्वा आवसो हवमाना स इन्द्र भवस्तोत्रेषु दधिरे पानः सोमे एष्मध्वर इया नो अत्यो न चो ओशते यन्ते एष्मदाभन्मनन्त्रयः पौरे छन्द्रयसे हवम् प्रवीरमुग्रम् विचिन्धनस्पृतम् विभू ऊतिम् महा महः उद्रेव वज्रिन्नपतोपसु त्वना सदा आपीपे च दाशुषे यद्धनूनम् परावृति यद्दा आपृथिव्यान्लिपि इन्द्रहरिभिर्म हेमतरुष्पेभिरागहि रथिरासो हर योजेते ए अश्रिधओ जोपातस्यपि प्रति येभिर्निजस्युम्मनुषो निघोषयोजेभिः स्पः परीयसे एतावतस्तेऽवसो विद्यावशो रनं यसः यथाप्राव एतशङ्कृद्वेधने यथापशन्द्रशूरजे यथा कण्डे एमखवन्मेधे ए अध्वरे दीर्घनिथे नमो ओनसे यथा असिषासो अद्रिगोमयि गोत्रम् हरिःश्रियम् यथा मनोसाम् वरणौ सोममिन्द्रापिभस्तुतम् नीपा आतिथौ मघमन्मेध्यातिथौ पुष्टिगौ सुष्टिगौ सजाः पारणद्वाणः प्रस्कण्डम् सहस्रान्यदिषा सद्गवा मृषिस्पोतोदस्य वे वृकाः य मुक्तेर्न विन्धते चिकिद्य ऋषिचोदनः इन्द्रन्तमच्छा आवदनम् यस्या भत्यरिष्यन्तम् न यस्मा अर्कम् सप्तशीर्णाणमा धृतुस्त्रिधातुमत्तमे पदे स त्वे यो नो दाता ओ दाता वसो ओ नामिन्द्रन्तम्भो महे भयम् विद्माह्यस्य सुमतिन्न वीयसेऽङ्गमे मगोमतिम् रजे यस्मै त्वम् वसो दानाय शिक्षसि सरायः स्पोषमश्नुते तन्त्वा आभयम् मघपन्निन्द्रगिर्वणः सुतावन्दोहवामहे परातनस्तरेरसिरेन्द्रसश्चसि दाशुषे उपोपेन्नुभगवन् भोजयन्नुतेदानन्देवस्य पृच्यते प्रयो नक्षे अभ्योजसात्रिभिम्बीशृष्णन् निघोषयन् यदेदस्तम्भेत्प्रथयन् नवोन्दिपमादिज्यनिष्टपार्थिवः पा यस्यायम् विश्व आर्यो दासस्येवधिपा अरिः तिरश्चिदर्ये रुषमेपवेरपितुभ्येत्सो अद्यते रः तुरण् मधुमन्दम् कृतश्चुतम् विप्रासो अर्कमा ऋजुः अस्मे रजिः पप्रथे वृष्ण्यम् शभोऽस्मे सुबानास इन्दव यथा मनो विवस्मति होमम् यथा आत्रते छन्द इन्द्रजुजो ओषस्यायौ मादयसे स चा पृषध्ये मेऽध्ये मातरिष्मनीन्द्र सुबाने अमन्दथाः यथा सोमं दशशिप्रेदशो अन्येऽस्योमर्ष्णा केवला तथे यः सोमन्धृतापि वद यस्मै विष्णुस्त्रीणि पदापि च क्रम उपमित्रस्य धर्मभिः यस्य त्वमिन्द्रोमेतनो माजे एवादितो तन्दा आ वयं सुदुघा आविव गोतु श्रवस्य ुग्र ईशानकृत अयामन्नुग्रो मघवापुरो वसुर्गोरश्वस्य प्रदातुनः यस्मै त्वम् वसोदारायसे स राजस्पोषमिन्वते वसूयभो वसुपतिम् शलक्रतुं स्तोमैरिन्द्रम् हवामहे कदाचलप्रयुच्छस्युभे निपासि जन्मने तुत्यहवनन्त इन्द्रियमातस्थापमृतम् यस्मै त्वम् अघवन्दिन्द्रगिर्वणः शिक्षो शिक्षसि दाशुषे अस्ताकङ्गिर उत सुष्ठुतिम्बसो कण्डवच्छृणुहे हवम् अस्ता आविबन्म पूर्व्यम् ब्रह्मेन्द्राजवोचत पूर्व्येरथस्य बृहतेरनोषद स्तोतुमेधा असृक्षत समिन्द्रो रायो बृहते शुक्रा श्वश्रुतयः सङ्गवा आशिरः सो मा इन्द्र मम दिशुः उपमन् वा आमघो राज्येष्ठर्भित्तमम् अघमन्दिन्द्रगोपितमीषा तन्ता आभयम् हर्यश्वम् शतक्रतुम् वा जयन्तो आ नो विश्वे एषा न सम्मध्वस्यञ्चन्त्वद्रयः ये परापतिसुन्दरे जनेश्वा ये अर्वापरेन्दवः विश्वाद्वेषा अंसि जहि चापचाकृसि विश्वे एषन्वन्तावसो शीष्टे एषु चित्ते मतिरासो ओ अंशभो यत्रासोमस्य तम्पसे इन्द्रनेते एजनेतिः मितमे आशन्तमशन्तमाभिरभिष्टिभिरास्वा आपेष्वापिभिः आदितुरम् सत्पतिम् विश्वचर्षणि प्रजास्वाभगम् प्रसोतिराचते एभिजेत उक्थिनः क्रतुम् पुनत आनुषक यस्ते साधिष्ठोपसेते आमभरे एषु ते होत्रा अभिरुत देवहोतिभिः अहम् हि ते हरिवो ब्रह्मवाजजुरादीयामि स दोतिभिः त्वामि देवतममे समश्वयुर्गम् युरग्रे मथीनाम् एतत्त इन्द्रवीर्यम् गीर्भिर्गृणन्ति कारवाः ते स्तोभन्त ऊर्जमावङ्घृतश्च्युतम् औरासो नक्षन्धेतिभिः नक्षन्त इन्द्रमवसेषु कृत्य या येषाम् सुतेषु यथा आसंवर्ते अमदो यथा आकृश एवास्मे इन्द्रमत्स्व आ नो विश्वे सजोषसो देवा असोकन्तनोपनः वसवो रुद्रा अवसेन आगमन् शृण्वन्तु मरुतो हवम् पोषा विष्णुर्हवनम् मेसरस्मत्यवन्तु सप्तसिन्धवः आपोपातः पर्वता सो वनस्पतिः शृणोतु यदिन्द्रराधो अस्ति देवाघो न तेन नो बोधि स वृथे भगो दानाय वृत्रहन्न आदिपते नृपते त्वमिद्धि नोपाज आवक्षि सुक्रतो वीतिहोत्राभिरुदेववेदिभिः स समां सोऽशृण् सन्दिह्या अर्य आशिष इन्द्र आयुर्जनानाम् अस्मान्नक्षस्व मघबन्धुपावसे धुक्षस्वभिर्विषेमिषम् वजन्त इन्द्रस्तो मेभिर्विधे मत्त्वमस्माकम् शशयम् राधो अह्रयम् रस्कण्तोशय भूरेदिन्द्रस्य वीर्या अन्यक्षमभ्यायते राधस्तेदस्य वेदृक शतम् श्वेता स उक्षणोऽपिता रोद रोचन्दे वह्नादिबन्नतस्तभुः शतम् वेणु शतम् शुनः शतम् चर्माणि शतम् मे एबल्पजस्तु का अरुषीणाम् चतुःशतम् सुदेवास्थगाण्डवायनावयो ओभयोऽपि चरन्ताः अश्वासोनचक्रमत आदित्साप्तस्य ओनस्य महिश्रवाः श्यावे एरतिध्वसन्वधश्चक्षुषा चलसन्नशे प्रतितेजस्य वेव्रकराधो अदर्श्यहृयम् यौर्नप्रतिनाशमाः दशमह्यम् बोधक्रतः सहस्रादस्य वेवृकाः नित्या आद्राजो अमम्हत शतम् मे ए गर्दभानाम् शतमूर्णा तत्रो अभिप्राणि यत बोधक्रता ्रथः अग्निः शुक्रेण शोदिषाः बृहत्सूरो अरोचत दिवि सूर्यो अरोचत युवन्दे एवाक्रतुना पूर्येण युक्तारथेन विषय्यजत्रा आगच्छतन्नासत्याशते एभिरिदम् तृतीयम् सवनम् पिबाधः युमान् देवास्त्रय एकादशा सः सत्यस्य दृशे पुरस्तात् अस्माकम् यज्ञम् सपरञ्जुषाणापातम् सोममश्विनातीत्यग्नि पनायन्तदश्विना कृतम् वा अमृषभो दिगोरजसः पृथिव्याः सहस्रम् शंसा आ उत एकविष्टौ सरुपाम् इत्ताम् उपजातापिबध्ये अयम् वा अम्भागो निहितो यजत्रे मा गिरो नासत्योपजातम् पिभतम् सोमम् मधुमन्तमस्ते प्रदाश्वाम् समपतं शतेभिः य मृत्विजो बहुधा कल्पयन्तः च एतसो यज्ञमिमम् वहन्ति यो अनु चानोऽब्राह्मणो युक्तः आसीत्कास्वित्तत्र यजमानस्य संवित् एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनुप्रभूतः एकैकोषाः सर्वमिदम् विभात्येकम् वा इदम् वि बभूव ज्योतिष्पन्तम् गेतुमन्तम् त्रिचक्रम् सुखम् रथम् सुषदम् भूरिवारम् चित्रामघायस्य योगेतम् वा अतिरिक्तम् विबध्यै इमानि वाम्बा कथेया आदिशस् इन्द्रा आवरुणा प्रमहे सुतेषु वाम् यज्ञे यज्ञे हसवनाभुरण्थो यत्सुन्वते यजमानाय शिक्षथः निश्चिध्वरेरोषधीराप आस्तामिन्द्रावरुणामहिमानमाशत यासि स्रतोरजसः पारे अध्वनोजयोश्चत्रुर्न किरादे एव ओहते सत्यन्तदिन्द्रावरुणा कृशस्य वामध्व ऊर्मिन्दुहते सप्तवाणीः ताभिर्दाश्वाम् समपतम् शुभस्पतेजो वामदध्वो अभिपाति चित्तिभिः ऋतपृषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्या या ह वामिन्द्रावरुणा हृतश्च तस्ताभिर्ध त्व यजमानाय शिक्षतम् महते सौभगाय सत्यम् अस्मान्स्विन्द्रावरुणाभृतश्चुतस्त्रिभिः साप्तेभिरवतम् शुभस्पति इन्द्रावरुणाय ऋषिभ्यो मनीषाम् वाचो मतिम् श्रुतमदत्तमग्रे यानिष्ठाना अन्यसृजन्त धीरा यज्जन्तन्दानास्तपसाभ्यवश्यम् इन्द्रावरुणा सौमनसमतृप्तम् राजस्पोषं यजमानेषु धत्तम् प्रजाम् पुष्टिम्भोतिमस्मासु धत्तम् दीर्घायुत्वाय प्रतिरतम् न आयुः अग्न आयाह्यग्निभिर्होता आनन्ता वृणीमहे आत्तामनः त्वप्रयता हविष्मते यजिष्ठम् बर्हिरासदे अर्चाहिता सहसः सो नो अङ्गिरस्रुचश्चलम् यध्वरे ऊर्जो न पूर्व्यम् अग्ने एकविर्वेधा असि होता आपावकयक्ष्याः मन्द्रो यदिष्ठो अध्वरेष्पीड्योऽभिप्रेभिः शुक्रमन्नभिः अद्रो ओघमावहोभिष्ठदेवाम् अजस्रपीटये अभिप्रया अंसि सुधितावसो ग हिमन्दस्वधेतिभिर्ष्यतः त्वमित्सप्रथा अस्यग्नेत्रारतस्कविः मिधानदीदिभाषन्ति मेधसाः शोचाशोचिष्ठती विषेमयोरास्वस्तोत्रे महा देवानाम् शर्मन् मम सन्तु सूरजः शत्रोषाः स्वग्नजाः यथाद्धमत समग्ने सञ्जोर्वशिक्षमेवादह मित्रमभोजो अस्मद्धृग्धुर्मन्माकश्च मेनते मर्ता नो मर्ताय रिपवे रक्षस्मिने माघशंसाय रीरथः अस्रेधद्भिस्तरडिभिर्यभिष्ठशिवेभिः पाहि पादुभिः पाहि नो अग्र एकया पाह्यो उतया पाहि दीर्भिस्तिसृभिरोर्जाम्बते पाहि च सृभिर्वसो पाहि विश्वस्माद्रक्षसो अरा औणः प्रस्मपादेश नो े तिष्ठन् देवता आदय आपिन्नक्षा आमहे वृधे आनो अग्ने वयोवृधम् व्रजिम्बा आवकशंस्यम् रा स्वा आ चन उपमाते पुरस्पृहं सुने एते स्वयशस्तरम् येन पुंसा तो वर्य आदिशाः सत्पन्नो आवर्धप्रयसा शचीव शोचिन्वाधिजो अवसुविताः शिशा आनो वृषभो यथाग्निः शृङ्गेत विद्भद् तिग्मा अस्य ह नभो न अग्ने वृषभः प्रतिधृषे जम्भा आसो यद्वितिष्ठसे सत्पन्नो ओहो तत्सुहुतम् हविष्कृधिवंस्व आ नो शेषेवनेषु मात्रोऽसन्तामर्ता आस इन्दते अतन्द्रोहं यामहसि विष्कृत आदिद्येषु राजसे सप्त होता आरस्तमिति ईलते त्वाग्ने सुजमह्रयम् भिनत्स्यद्रिन्दवसामि शोचिषा प्राज्ञेतिष्ठजनाम् अति अग्निमग्निम् अग्निम् इदप्रयसः शश्वतीश्वा होतारञ्जर्षणीनाम् के ते न शर्मन् से सुमण्यज्ञेतुभ्यम् चिकित्पना इषण्यया नः मानो वसो मा नो रक्ष आवे ए शीदाघृणीव सोमा यातुर्यातुमावताम् परोगम् योत्यनिरामपक्षुधमग्ने सेदरक्षस्मिनाः उभयम् शृणवच्च न इन्द्रो अर्वागिदम्बचाः सत्राच्यामघवासोमपीटजेधियाशविष्ठ आगमत तम् ह्य स्वराजम् मृषभन्तमोजसे धिषणे निष्टतक्षतुः उतोपमानाम् प्रथमो निषेजशिशोमकामं मनाः आवृषस्व पुरोपसो सुतस्येन्द्रान्धः विद्माहित्वा हरिवः पृत्सुसा सहिमधृष्टम् जिद्दधृष्वणि अप्रामि सत्यमघवन्दथेत सतिन्द्रकृत्वायसावशाः स भक्षो जिद्यन्तो अद्रिवः भिरोतिभिः भगन्महिशसंषो रचरा आमसे पौरो अश्वस्य पुरुकृद्गवा आमस्युत्सो देवहिरण्ययाः न गिरिदानम् परिवर्धिषत्ते यद्यद्याभितदाभर त्वम् ह्येहि चेरवे पिताभगम् वसुत्तये पुरो सहस्राणि शतानि च यूथादानाय मं हसे आपुरन्दरम् च क्रमविप्रवच स इन्द्रम् गायन्तोऽ वसे अविप्रोपायतमिधद्विप्रो ओपेन्द्रदेवचाः सप्रममन्द्रत्वायाशतक्रतोऽप्राचारमन्यो अहंसन उग्रवा आहुर् रक्षकृता आपुरन्दरो यदि मे शृणबद्धवम् वसूयपो वसुपतिम् शतक्रतुं स्तोमैरिन्द्रम् हवामहे न पापासो ओम नामहे नारा आयासो न जुल्हवः सदा आसुते सखा आयम् कृणवा आमहे उग्रञ्जुज्मपृतनासुधा सहि मृणका आतिमदा आभ्यम् वेदा आभ्रमञ्चित्सरिता रथे तमो वाचिनञ्जमिदो न शत् यत इन्द्रभया आमहे ततो नो अभयम् मघवन् छग् पतन्न ओतिभिर्विद्विषोऽपि मृधो ओजेः त्वम् हिरा आधस्पते राधसो महः क्षजस्यासि विधतः तन्ता आपजम् मघवन्निन्द्रगिर्वणः हवामहे इन्द्रस्पडुतवृत्रकापरस्पादोपरेण्यः स नो ओरक्षरमम् स मध्यमम् स पश्चात्पातु नः पुरः तन्नः आरे अस्पत्कृणहि देव्यम् भयमारे हेतेरदे हे अद्याद्याश्व इन्दत्रास्व परे चनः विश्वाचनो दृतॄन् सत्पते अहादिपादक्तम् च रक्षिषः प्रभङ्गेशोरो अघवा तु बेमघः सम्मिश्लो वीर्या आयकम् उभा ते एबाहो वृषणाशतक्रतो निया वज्रम् स्मा उपस्तुतिम्भरता यज्जुजो ओषते उक्थैरिन्द्रस्य माहिरम्बयो अवर्धन्ति सोभि नो अभद्रा इन्द्रस्य रातजाः अयुजो असमो नृभिरेकः कृष्टिरजास्याः पूर्वेरतिप्रवा आवृते विश्वा आजातान्योजसा भद्रा इन्द्रस्य रातयाः अहिते न चिदर्वता जीरता आनुसिषासते प्रवाच्यमिन्द्रदत्तवीर्या आणि करिष्यतो भद्रा इन्द्रस्य रातजाः आया आहि कृणवा आमथ इन्द्रब्रह्माणि वर्धना येभिश्चिष्ठ चाकनो भद्रमिहश्रवस्य ते भद्रा इन्द्रस्य रातजाः धृषतश्च धृषन्मनः कृणोषे इन्द्रयत्तमम् ते व्रैः सोमैः सपर्यतो नमोऽभिः प्रतिभूषतो भद्रा इन्द्रस्य रातजाः अपजष्टजी ईषमो भताङ्गिपमानुषः दुष्पे दक्षस्य सोमिनः आयं कृनुते युजम् भद्रा इन्द्रस्य रातयाः विश्वे एत इन्द्रवीर्यम् देवा अनुक्रतुम् ददुः भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातजाः दृणेतदिन्द्रेशव उपमम् देवतातले यद्धंसि कृत्रमोचसा चेपते भद्रा इन्द्रस्य रातयाः समनेव वपुष्यतः कृणमन्मानुषा युगा विरेतदिन्द्रश्चेत नमतः श्रुतो भद्रा इन्द्रस्य रातयाः उज्जातमिन्द्रदेश उत्पामुत्तमक्रतुम् भूरि गो भूरि भद्रा इन्द्रस्य रातयाः अहं च त्वम् च वृत्रहंस संयुज्या भद्रा इन्द्रस्य रातयाः सत्यमिद्वा उदम् वयमिन्द्रम् स्तवा मनागृतम् महाङ्कुन्वतो वसो भूरिज्योतिहिंषिसुन्वतो भद्रा इन्द्रस्य रातजाः स पूर्व्यो महाना अम्बेनः क्रतुभिरानजे यस्य द्वा रामनुष्पिता देवेषु धिय आनजे निपोमानन्नोत्सदन् सोमपृष्ठा सोऽ्रयः उक्ता ब्रह्मचशंस्या स विद्वा अङ्गिरोऽभ्य इन्द्रो गा अवृणोदप स्तुषे तदस्य पौंस्यम् स प्रत्नथा कविपृथ इन्द्रो ओवाकस्य वक्षणीः शिवो अर्कस्य होमन्यस्मत्रागन्तवसे आदोनु ते अनुक्रतुम् स्वाहा वरस्य यज्यवः श्वात्रमर्का दावने इन्द्रे विश्वानि वीर्या आकृतानि कर्त्वा आनि च यमर्का अद्धरम् विदुः यत्पाञ्चजन्यया विषेन्द्रे घोषा असृक्षता अस्त्रणाद्बर्हणा आविपो वोर्यो मानस्य सक्षजाः यमुते अनुष्टुतिश्च कृषेतानि पुंस्याः श्चक्रस्य वर्तनीम् अस्य पृष्ठो व्योदन उरुक्रमिष्टजीवसे यवन्नपश्व आदले तद्दथा आ नास्य वो युष्माभिर्दक्षपितरः स्याम मरुत्वतो वृधे मृत्तिया आ यथाम् नरुक्मभिः सूरनो नुमः येषा अस्मे रुद्रामेह नापर्वतासो वृत्रहत्ये भरहूतौ सजोषाः यः शंसते स्तुवते धायि वज्र इन्द्रज्येष्ठा अस्माम् अवन्तु देवाः भुक्त्वा आ मन्दन्तु स्तोमाशृणुष्व राधो अद्रिवः अवब्रह्म द्विषोदिः पदापणेन्द्रराधसोऽपाधस्तमहाम् असि नहि त्वमे शिषे सुतानामिन्द्र त्वमसुतानाम् त्वम् एहि प्रेहि क्षयो दिव्या आघोषञ्च ऋषणीनाम् ओभे प्रणासि रोदसे किञ्चित्पर्वतङ्गिरिम् शतवन्तम् सहस्रिणम् विस्तोतृभ्यो आसुते वयम् हवामहे अस्माकङ्गा ममा वृण क्वा अस्य वृषभो युवा आतु विग्रीभो ब्रह्मागस्थम् सपल्यते कस्य स्वित्सफलम् मृषा आजुजुष्वा अवगच्छति इन्द्रम् क उस्मिदाचके कन्ते एता असखलवृत्रहङ्कम् सुवीर्याः उत्थेत उस्वितन्तमः मानुषे जने सोमः पूरुषु सूयते तस्ये हि अयन्ते एषर्यणावति सुषोमा आजामधिप्रियः आर्जीकीये एमदिन्तमः अमद्यनाथसे महे चारुमदा आजगृष्मजे एहे एमिन्द्रद्रवापिबा यदिन्द्रप्रागपागुदन्यग्वाहूयसे नृभिः आया आहितोयमाशुभिः यद्वा प्रस्रवणे दिवो मादया आसे स्पर्हरे यद्वा आ आत्वा आगीर्भिर्महाम् हुमेकामि बभोजसे इन्द्रसोमस्य पीतये आत इन्द्रमहिमानम् हरयो देवते महाः रथे एवहन्तु बिभ्रदः इन्द्रगृणीश उस्तुषे महा उग्रईशानकृत एहि नः सुतम् विमा सुतावन्तस्पा भयम् हवामहे इदम् नो यच्चिद्धिरश्वतामसेन्द्रसाधारणस्त्वम् तन्ता आभयम् हवामहे इदन्ते ए सोम्यम् मध्वसु क्षन्नद्रिभिर्नराः तुषाण इन्द्रदत्पि वा विश्वाम् कर्योभि पश्चितो तिख्यस्तु यमागहि अस्मेधे एहि श्रवो बृहत् दाता मे पृषतीनाम् राजा सहस्रे पृषदी रामनिश्चन्द्रम् बृहत्पृथो शुक्रम् हिरण्यमाददे न पा आतो दुर्गहस्य मे सहस्रे एण सुराधसः श्रवो देवेश्वक्रदा तरोभिर्वो विदद्वसुमिन्द्रम् सपाथ ऊतये बृहद्गायन्तः सुतसो मे अध्वरे हुमे भरन्नकारिणम् नयन् दुर्ग्रावरन्तेन स्थिरामुरोमतेऽ सुप्रमन्धसः य आदृत्या आचमानाय संवते दाता चरित्र उक्थ्यम् यश्शक्रो वृक्षो अस्यो यो पाकी यो हिरण्ययाः स ऊहस्य रेजयत्यपा आवृतिमिन्द्रो गव्यस्य वृत्रहा निखा आतञ्चिद्यः पुरुसम्भृतम् वसूदिद्वपतिदाशुषे वज्रेषु शिप्रो हर्यश्वन्द्रत्रत्वायथापशत् यद्वाबन्धपुरुष्कुतपुरादिच्छोरनृणाम् वयम् दत्त इन्द्रसम्भरामसि यज्ञमुक्थम् तु रम्बजाः स चासो मेषु पुरुहूतवज्रिगोमला यद्युक्षसोमपाः त्वमिद्ध ब्रह्मकृते काम्यम् भुवाः वयमेन विदाह्योऽपेपे मेहवज्रिणम् तस्माद्य समना सुतम् भरा नूनम् भो कश्चिदस्य वारण उ रामधिराजुने सुषते सेमन्नस्तो मञ्जुजुषाणा गहीन्द्रप्रचित्रया धिया कोन्वा अस्या कृतमिन्द्रस्यास्ति केनोनुकम् श्रोमते न शुश्रुवेणः परिवत्रः कतो ओ महीरधृष्टा अस्य तविषे करुवृत्रघ्नो अस्कृतम् इन्द्रो विश्वा अङ्गे कनाटा अङ्गहदृश उत कृता आपणीङ्ग्रही वयङ्गा आ ते अपूर्व्येन्द्रब्रह्माणिवृत्रहन्न पुरोतमा आसः पुरोहोतवज्रिवो भृतिन्न प्रभरामसि पूर्व्येश्चिद्ध्यत्वे तु विपूर्मिन्नाशसोऽहवन्त इन्द्रोदयाः तिरश्चिदर्यस्वनापसोऽभिषभिष्ठः श्रुतिमेहवम् वयङ्घा आ ते त्त्वेन्द्रविप्रा अविष्मसे न हि त्वदन्यः पुरुहोदकश्च न मघवन्नस्ति मर्धिता तन्न अस्या अमतेरुषस्तेरप स्पृथे तन्न ऊते तव चित्रया आधिया शिक्षा सोम इद्वः सुतो अस्तु कलयो मापिभेतना अपे देशद्भस्मायति स्वयम् घैषो अप आयति त्यान्मक्षत्रियाम् अप आदित्यान्या आदिशामहे सुवृणीकाम् अभिष्टये वित्रोऽहत्यम्भतिम् वरुणः स्पर्शः आदित्यासो यथा विदुः तेषाम् हि चित्रमुख्या अम्बरोऽधमस्ति दाशुषे आदित्यानामरम् कृते महि महतामभो महतामवो वरुणमित्रायमन् अवांस्यावृणीमहे जीवान्न अभिधेतनादित्या सः पुराहथा वनश्रुतः यद्वश्रान्ताय सन्वते वरोऽमस्ति यच्छद्दिः तेना आनो अधिवोचत अस्ति देवा अम्भोरुर्वस्थिरत्नमना आगसः आदित्या अद्भुतैन सह मानः सेतुःसिषेदजम् महे वृणक् पुरः स्परे इन्द्र इति श्रुतो वशी मा नो मृचारिपूणामृजिनानामविष्यवः देवा अभिप्रमृक्षत उत प्रामधिते मह्यहम् देव्युवब्रुवे सुमृकामभिष्टये परिषि धितोकाय जीवसे ये मूर्धानाः क्षितेनामलब्धा सस्वयशसः व्रता रक्षन्ते अद्रुहाः तेन आस्नो मृगानामादित्या सो मोदतास्तेनम् वर्धमिवादिते अपोषण इयम् च रुदादित्या अपरुम्भरिः अस्मदेत्वजघ्मृषेष्पर्धिवः सुदारवादित्या ऊतभियम् पुरा नूनम्बुभद्महे शश्वन्तम् ह्यप्रजेतसः प्रतियन्तम्न सह देवाकृनुथीवसे तत्सु नो सन्न्यस आदित्या जन्मोचते बन्धाद्बद्धमिवादिते नास्माकमस्ति तत्तर आदित्यासो अतिष्कते योजनस्मभ्यम् मृणत मानो हेतिर्विवस्वत आदित्याः कृत्रिमाशरोः विषद्वेषोऽव्यम् हरिमादित्यासोऽभिसंहितम् विश्वग्विबृहदारपाः इति षष्ठाष्टके चतुर्थोऽध्यायः